अथाष्टाविंशः सर्गः प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः गच्छन्नेव च काकुत्स्थो विश्वामित्रमथा ब्रवीत् गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि अस्त्राणाम् एवम् ब्रवति काकुत्स्थे विश्वामित्रो महातपाः संहारान्व्याजहाराथ धृतिमान् सुव्रतः शुचिः सत्यवन्तम् सत्यकीर्तिम् धृष्टम् रभसमेव च प्रतिहारतरम् नाम पराङ्मुखमवाङ्मुखम् लक्ष्यालक्ष्या विमौचैव दृढनाभसु नाभकौ दशाक्षशतवक्त्रौ च दश शीर्षशतोदरौ पद्मनाभमहानाभौ दुन्दुनाभस्वनाभकौ ज्योतिषम् शकुनम् चैष नैरास्य विमला बुभौ यौ गन्धरविनिद्रौ च दैत्यप्रमथनौ तथा शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचस्तथा सार्चिमाली धृतिमाली वृत्तिमान् रुचिरस्तथा पित्र्यः सौ मनसश्चैव धनधान्यौ च कामरूपम् कामरुचिम् मोहमावरणम् तथा जृम्भकम् सर्पनाथम् च पन्थानवर्णौ तथा कृशाश्वतनयान् रामभास्वरान् कामरूपिणः प्रतीच्छमभद्रन्ते पात्रभूतोऽसि राघवा बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना केचिदङ्गारसदृशाः केचिद्धूमोपमास्तथा चन्द्रार्कसदृशाः केचित्प्रह्वाञ्जलिपुटास्तथा रामम् प्राञ्जलयो भूत्वा ब्रुवन्मधुरभाषिणः इमे स्मनरशार्दूलशाधि किम् करवामते गम्यतामिति तानाः यथेष्टम् रघुनन्दनः मानसाः कार्यकालेषु साहाय्यम् मे करिष्यथ अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् एवमस्विति काकुत्स्थमुत्वा जग्मुर्यथा गतम् स च ताम् राघवो ज्ञात्वा विश्वामित्रम् महामुनिम् गच्छन्नेवाथमधुरम् श्लक्ष्णम् वचनमब्रवीत् किमेतन्मेघसङ्काशम् पर्वतस्याविदूरतः वृक्षखण्डमितो भाति परम् कौतूहलम् हि दर्शनीयम् मृगाकीर्णम् मनोहरमतीव च नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् निःसृतास्मोमनुः श्रेष्ठकान्ताराद्रो महर्षणात् अनया त्ववगच्छामि देशस्य सुखवत्तया सर्वम् मेषम् स भगवन् कस्याश्रमपदम् त्विदम् सम्प्राप्ता पापा ब्रह्मघ्ना दुष्टचारिणः तव विग्नाय विघ्नाय दुरात्मानो महामुने भगवंस्तस्य कोदेशः सा यत्र तव याज्ञिकी रक्षितव्या क्रिया राक्षसाः एतत्सर्वम् मुनिः श्रेष्ठ प्रभो इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः